्यायुक्तो यदि भवति शक्त प्रभवितुम् न चेदेवम् देवो न खलु कुशलस्पन्दितुमपि अथ स्वा आराध्या कैरविरिजादिभिरपि तुम् स्तोतुम् वा स चमकृतपुण्यप्रभवति <laughs> <ने। laughs> स हीयां तु तव चरणपङ्केरुवभवम् दिविङ्गित्वयति लोतालवितलम् सहत्येन शौरिकथमपि सहस्तेण किरम् शुद्ध्यैनम् भजति भसितो अविद्यानाम् अन्तस्तिमिरमि चिरद्वीपनगरी जडानाम् सैजन्यत्र बगमकरन्द त्रिदिभ्यरी दरिद्राणा सिन्तामणिगुडनिका जन्म जलधौ निमग्नाम् मुररिभुवरागत्य भवति वदन्यः पाणिद्या अभयवरदो दैवतगणः त्वमेका नैवादि प्रकटितवराभित्यभिनया भयात्रातुम् दातुम् फलमपि च वाङ्ालमधिकम् शरण्ये श्लोकानाम् तव हि शरणादेवनिपुणौ हरित्वामाराध्य प्रणतजनसौभाग्यजननी पुरा नारी भूत्वा पुररिपुम विक्षोभमनयत् वरोऽपि त्वा नत्वा रतिनयननेकेन वपुषा मुनीनामप्यन्तप्रभवति मोहायमघता जनपुष्पं मौवी मधुसरमणी पञ्चविशिखा वसन्त सामङ्गा रुदायोधनरचस तथा के कम् हिमगिरिसुते कामपि कृपा अपाङ्गाते रघ्वा जगदितमनङ्गो विजयते पुनः करिकरभकुम्भश्च परिखीनामध्वे परिणत दा करच्रवदना धनुगाणान् पाशम् त्रिणिमपि दधानात् करतलै पुरताराः पुरुषितधा सिंहोर्मध्ये सुरभिटपि वाटी परिवृते मणिद्वीपे नीपोपति किं गा मणि गृहे शिवाकारे मणि परमशिव पर्यङ्गनिलया भजन्ति त्वां धन्या कतितन चिदानङ्गी महिम् मूनाधारे कमपि मणिपू काश उपरी मनोपिध्रू मध्य सकलमी भिवाथम तक पद्मीप विदधते सुधाधाराचारे शरणयुगलां तद्विगणितै प्रपंचं चिन्तयन्ति पुनरपि रसाम्नायमगतः अवाप्य त्वां भूमिम् भुजनिभम् अद्यवलयम् श्वः पानम् कृत्वा तिषकुलकुण्डे कुभति चतुर्भिः श्रीकण्ठैः शिवयुवदिभिः पञ्चभिरभिः प्रभिन्नाभिः शम्भोः नवभिरविमूलप्रकृतिभिः चतुश्चत्वारिंशत् वसुदलकलाश्रत्रिवलयत्रिरेभिः सार्धम् तव शरणपोणाः परिणता गिरि संज्ञे तुरयितु कवीन्द्रा कल्पन्ते कथमपि विदिञ्चित् प्रभृतय यदा लोकौ सुख्यात् समर जगनायान्ति मनसा तपोभिः दुष्प्रापामपि गिरिशतायुज्यपदवी नरम् वष्टीयांसम् नयनविरतम् नर्मसुजगम् तवा पाङ्गालोके पकितम् अनुधावन्ति णीबन्धाः कुचकर च विक्रिकया दृढ्यपा विगणित दुपूजायुवतयः हितौषट् पञ्चातज्ञ समधित पञ्चातदुदके पञ्चाशदधिविद्विषट्त्रिंशत् मरसि चतुष्षष्ठिरिति ये मयो केषामप्युपरि तव पराम् पुटयुगम् शरज्जोत्साशुद्धाम् चियुत जटाजूतमकुतारा वरत्राण पटितघटिका पुस्तकरा प्रति जत्वा नत्वा कथमि वददा सङ्गीत झटे मधुक्षीरद्राक्षा मधुरि मधुरीणा कवीन्द्राणां चेतः कमलवन बाला तपरुचि भजन्ते ये सन्तः कतिचित् अरुणामेव भवति विधिञ्चित्तेन स्याः संरकरशृङ्गारलहरी कभीराभिर्वाभिः विधगति सतां रञ्जनमी शिलाभङ्गरुजिभिः वशिन्याध्यादित्वा सः जननी सञ्चिन्तयति यत् तत च भवति वसताम् भङ्गिरुजिभिः वटोभिः वदनकमलामोदमधुरै तनुच्छायाभिस्ते सगुणकरणिश्रीतरणिभिः दिवम् सर्वामुर्वीम् हरुणिमनिमग्राम् स्मरति यः भवन्त्यस्य तस्य द्वनहरिणशालीनयनाः ौर्वश्यावश्याः कति कतिन गीर्वाण गणिका मुखम् बिन्दुम् कृत्वा कुतयुगम् अधः तस्य ददधः हरार्धम् ध्यायेभ्यः ते मन्मथ कला तदध्यक्तं क्षोभम् नयति वनिता इत्यादि लघु त्रिलोकीमप्याशु भ्रमयति रवीन्दुकनयुगा चिरन्ती मङ्गेभ्यः किरणति पुरुङ्गावृतर सर्वाणाम् दर्पम् शमयति च कुङ्काधिवैव ज्वरपृष्टा दृष्ट्या सुखयति सिरया लेखातङ्गी तपनशि वैश्वानरमयी निषण्णां षण्णामप्युपरि कमलानां तव सला मगा पद्माटव्यां मृदिकमलमायेन मनसा महा तप दधति परमानङ्गली भवानि त्वम् दाते मयि विसदृप्तिम् च करुणाति श्रोतुम् वाचम् कथयति भवानि त्वम् निति यद तस्मै जिशति निजकायुज्य पदवी मुकुन्द ब्रह्मेन्द्र पुटमपुटनीजितपदा त्वया कृत्वा वामं स्वपुरपरितृप्तेन वा मनसा शरीरार्धं शम्भोः अपरमपि शङ्के कृतमभू यदेतत्वद्रूपम् ततलमरुणाभम् त्रिनयनम् कुचाभ्याम् आनम्रम् कुटिरशचिचूडालमकुटम् जगत्तूटेधा रुद्रक्षपयते चिरकुर्वेतत् त्वमपि वपुरीश स्थिरयति तदा पूर्व सर्वम् तदिदम् अनुगृह्णाति च शिवः तवाज्ञाम् क्षणचलितयोः ितयोः त्रेवानां त्रिते भवे पूजा पूजा तव जननयो विरचिता तथा च त्वत्पादोद्वहन णिपीठस्य निकटेः नि शश्व मुकुलितकरोत्तंकुटाः विरिञ्चित् पञ्चत्वं व्रजति हरिवाप्नोति विरतिं विनाशं कीनाश भजति धनतो याति विततिरपि तं जीरितदृशा महासंहारे सिन् विहर हि सपतिरम् जपोजल्पशिल्पम् स चित्ता दक्षिण्यक्रमणम् अशनास्याभुति विधिः प्रणामस्तम् देह सुसमखिलम् आत्मार्पणदिशा तपर्यापर्यायः तव भवतु आस्वाद्य प्रतिभय जगामृत्युहरिणम् विपद्यन्ते विश्वे विधिशतमखाद्याधिनिषद कदालम् यक्ष्मेरम् कभदि कवदत्कालकलन न शम्भोः तण्डलम् कव जनमिताटङ्गमहिमा चिटीटम् वैदिकम् हरिहर पुरक्कै भगितः कटोरे कोटीरे चलति जटिजम्भारिमकुटम् तृणम् वेत् वेतेषु प्रथभमुपयादस्य भवनम् भवत्याभ्युत्ताने तव परिजनोक्तिः विजयते स्वदेहोद्भूताभिः गृणिभिः अणिमाजाभिः अभितः निषेव्ये नित्ये त्वाम् अगमिति सदा भावयति यतः किमाश्चर्यम् तस्य क्रीडयन समृद्धिम् चतुष्षष्ट्यान्द्रैः सकलमसि सन्धाय भुवनम् सिद्धि प्रतपरतन्त्रैः पशुपतिः पुनत्वन्निर्बन्धारखिल पुरुषात्रैकघटनापतन्तम् ते तन्त्रम् क्षितितलम् अवाचीतदिदम् शिवशक्तिः तावः रणः हंशत्रः तदुज परामारपरयः पौरी हृल्लेखाभिः चितुभिः अवतानेषु घटिताः भजन्ते बह्नास्ते तव जननि योनिम् लक्ष्मीम् त्रितयविदमादौ तव मनोः निधायैके नित्ये निरवधिमहाभोगरतिकाः भजन्ति त्वाम् चिन्तामणिगुण निबद्धाक्षवलयः शिवाग्नौ सुरविहृतगारापुतिशतैः शरीरं त्वं शम्भोम शशिनि गिरवक्षोरुगयुगौ तवा कारं वये भगवति नवात्मानमनधम् अदश्ये तस्य शीत्ययम् उभयदाधारणतया तितः सम्बन्धो वारसपरानन्दपरत्वम् योमत्वम् त्वमुदधिमरुत्सारिरसि त्वमापः त्वम् भूमिः त्वयि परिणताया न हि परम् स्वरे स्वात्मानम् परिणमयितुम् विश्ववपुटाः शिरानन्दाकारम् शिवयुवति भावेण विभृशे सवाज्ञा सपदशिकोटिद्युतिधरम् परं शम्भुं वन्दे परिमिदित पार्श्वं परचिता यमाराध्यं भक्त्या प्रति शशि सुचीनाम् भालोकभुवने शुद्धौ ते दुग्धपतितविशदम् व्योमजगतम् शिवम् के मे देवीमपि शिवसमानव्यवसिता ययो वा जायाः शशिकिरणकारूप्यतरणे विभूतान्तर्घ्वान्ता विदसति च कोरीव जगति कमुन्नीलक्तं विभजमकरं दैकरति तम् भरेकं तद्वन्द्वम् यदा दोषात् गुणमखिलम् अद्यत त्वयैव तव स्वाधितारे हुतवहम् अधिक्ताय निरतम् समी दे जननि महतीम् पाञ्चकमया यदा लोके लोका दसति महसि क्रोधचरिते दयार्द्राया दृष्टिः शिबिरम् उपचारम् रचयति परिप्त्या तिमिर परिपङ्क्तिपुरणया परिणध्येन्द्रदनुषम् तव श्यामम् मेहम् तमपि मणिपूरैक चरणम् इदेवर त्रिभुवनम् वा धारे मूले सततमययालात्यपरया न वात्मानं मन्ये न वदतमहाताण्डवदम् उभाभ्या एताभ्याम् उदयविधिम् उद्धिष्य दयया सनाथाभ्याम् जगत जननीमज्जितम् गतैर्वाणित्यत्वम् जणि चित्तम् जटिताम् क्षिबीडं ते वैवं किमचितु चीर्तयति रणशबलम् चन्द्रशकलम् ददुष्रं कि भद्रादिभिषनुं न ह तुलितलितेन्द्रीवरवनम् गजत् निध्यम् चिकुरधि कुर्वं तव शिवे यदीयम् सौरभ्यम् सहजम् उपलब्धुम् सुमनस स्वतम् शक्तिम् मन्ये बलमथन वाटी विटपि ङ्गूरम् प्रबलकबरी भारति विर विधा वृन्दैः बन्दीकृतमिव रविरणम् अरालैः स्वाभाव्या हरिकलभजश्रीभिः कलकैः ेवक्त्रम् परि सति पङ्केरुप रुचिं जरस्मे यस्मिन् दशद रुचि किं चरुचिरे सुगन्धौ माध्यन्ति वरदशद चक्षुः टम् लावण्य द्युतिविमलम् आहादितवयत् द्वितीयम् तन्मन्ये मङ्गघटितम् कन्द्रचकलम् विपर्या सन्न्यासा उभयापि सम्भूय च मिथ सुधातिः varinamati raka himakarajal bhuvang bhukde kimcit bhuvana bhaya bhangavya sanini vadhi netra dhyam madhu kararu dhyam dhita gunam hanumannya ीतं श्रुतिपतेः प्रकोष्ठोष्टेणुत्वं चिगोढाधरम् सूते सव्यं कव नयनम् अत्यात्मकतया माम् पामं ते तृजतिरजनी नाय तृतीया ते दृष्टिः ददजनितवाम्बुजरुचिः समागत्ते पञ्जाम् दिरजिषयोः अन्तरचरि विशालाकल्याणी पुटरुचिः अयोध्या कुवलयैहि कुवलयैः कृपाधाराधारा किमपि मधुरा आभोगवतिका अवन्ति बहुनगरविस्तारविजया ध्रुवम् तत्तन्नाम व्यवहरणयोग्या विजयते कवीना कन्द्रवदमकरम् वैकरचितम् कटाक्षव्याक्षेप भ्रमरतलभौ कन्दयुगलम् आमुञ्चन्तौ धृत्वा वनपरतास्वादसरलम् असूया तं सर्गा अलिकटयनम् किञ्चित ऋणम् शिवे शङ्कारादा तदि तदजने पुस्तनपरा सरोषा गङ्गायाम् गिरिशनयने विस्मयवसने खराशिभ्यो भीता सरतिरुह सौभाज्य जननी सचीसुष्मेरा मयि जननि दृष्टिः सकरुणा जटे करुणाभ्युणम् गरुत इव पस्माणि ददति पुरामेसु चित्तप्रजपद विद्रावणे इमे न्येते गोत्राधरपति कुलोत्रं तब तप आसन्नाकृत्य मदचदविदानं कलयत विभक्तत्रैवन्यम् व्यतिकरितलीलाञ्जनतया विभाति त्वम् नेत्र त्रिदयमिदम् ईशानदयिते पुनः क्रष्टुम् देवान् दुःखिनसरि रुद्रा उपरसात् ग्रजत्सत्त्वम् जिघत्तम इति गुणानाम् त्रय विवये पवित्रीकर्तुनः पशुपतिपदाधीनविजये जयामित्रैः नेत्रैः अरुणपदश्यामरुतिभिः न तोणो गङ्गा सपलतनयेति ध्रुवममुत्रयाणां तीर्थानाम् उपजयति तम् वेदमनघम् निमेषोन्मेषाग्या प्रलयमुदयम् याति जगति तवेस्याहुस्तो धरणि धरराजन्यतलये स्वदुन्वेषादातम् जगदिदमके तम् परित्रा परिकृत निमेषा सवदृशः सवापन्ने कुने जपनजन परिशून्य चकिता निलीयन्ते तोये नियतमनिमेषा यं च श्रीभच्छद पुटकवाटम् कुवलयम् जगाति प्रत्यूषे निजि च प्रविशति दृषा ग्राही यस्य दीनम् न पय कृपया मामपि नायम अनेनायं जय भवति न के पारिर्य वनेवान्येव कमतरी पातो किमतर परालं ते यत्र श्रवणवसमुल्लङ्घ्य विलसम् अपाङ्गव्यातम्भो दिशति शरसङ्घानधिषणा पुरगङ्गाभोग प्रतिफलित साटङ्गयुगलम् चतुच्छक्रम् मन्ये तव मुखमिदं मन्म च रथम् महावीरो अवनिरथम् अकेन्दुचरणम् प्रमथपतये सज्जितवते सरस्वत्या सूक्तिः अमृतहरी कौशलहरी बन्त्याः सर्वाणि श्रवणकुलुकाभ्याम् अविरलम् चमत्कारस्याः चरितचिरसकुण्डलगणो झणत्तरैस्तारैः प्रतिवचनमाचष्ट इव ते अतो दातावंशः सुखिलगिरिवंशध्वज पठि त्वदीयो निीयः फलतु फलम् अस्माकमुचितम् वसत्यन्तर्मुक्ताः शिशिरकरनिःस्वातजनितम् समृद्यायताम् बहिरपितमुक्ता मणिधरः प्रकृत्या रक्तायाग्रवन् सुदति दण्डेः प्रवच्येरादृश्यम् जलयतु फलम् विद्रुमलता न बिम्बम् तद्बिम्ब प्रतिफलभरादागात् अरुहितम् तुलामध्यारोढुम् स्वतमिव विलज्जेत कलय ज्योत्साजालम् प्रववदनचन्दस्य पिबताम् चकोराणाम् आती अतिरतया चञ्चु जडिमा अतस्ते शीतांशोः अमृतलहरीम् आम्लरुचयः पिबन्ति स्वच्छन्दम् निशि निशि भृशम् कार्य कथिशान्तुः गुणजन तथा मेर न जपा जपा पुस्तवा जयति सा यद्रातीनाया पठिक जगच्छच्छ विमये सरस्वस्यामूर्तिः परिणमति वाणित्यवपुष प्रणे जित्वा दैस्यान् अपकृतचिरत्रैः कवचिभिः निवृत्तैः चण्डांश त्रिपुरकर निर्माय शचि शकर्पूरश विलीयन्ते मातः सबवदनताम्बूलकवदाः विपञ्च गायन्ति विविधमपधानं पशुपतेरब्धे वक्तुम् हरितशिलता साधुवचने तदीयैर्माधुर्यैः अपलपितम् श्रीकलरवा निजादीणाम् वाणी निचूलयति चोलेन निभृतम् कराग्रेण स्पृष्टम् गिरिना बद्धजतया गिरीशेन उदत्तम् मुहुः अथ सपाला पुरतया करग्राक्षं शम्भोः मुगमुपुरवृन्दम् गिरिसु ते तवतु भुवम् ेषानित्यम् पुनदमयितुः सञ्चतवती तव ग्रीवादत्ते मुकटमलनाल श्रियं कियम् स्वतश्वेता काला गुरु लीलानित्यम् वसति यदधो कारचतिका गले रेखाशिस्रो गतिगमकगीते कनिपुणे विवाहव्यानद्ध प्रगुणगुणसङ्ख्या प्रतिभुवः विराजन्ते स्नाविध मधुरराज करभुवायाणाम् ग्रामानां, स्थितिनियमतिमानैवतेः मृणाली वृद्धीनाम् तव भुजनकानाम् चतघृणाम् चतुर्भिः सौन्दर्यम् सरसि जभवौ दिवसनैः संसत्यम् प्रथममथरा अङ्कधिकोः चतुर्णाम् शेषाणां समम् अपयवर्पणति उद्योतैः नवनलिनरागम् विरकथा कराणाञ्च कान्तिम् कथय कथया मत्कथम् पुरे कयाचिद्वासाम्यम् भजतु कलया कञ्चकमलम् यतिक्रीडल्लक्ष्मि चरण कललाक्षातचरणं देवि कन्दद्विपवदन पीतं तनयुगम् तवेदं न खेदम् हरतु सततं प्रश्नुतमुखम् यदालोक्य आशङ्काकुलित हृदयो कातज म्भः परिवृशति हस्तेन जडितु अमूते वक्षोजौ अमृतरजमाणिक्यकुतुकौ न सन्देह मन्दो न गपतिपताके मनसि नः पिबन्तौ तौ यस्मात् धूसङ्गमारावद्यापि विरदलनौ वदत्यम्ब तम्बेरमदनुज कुम्भ प्रतिभिः तवार श्च वरिता प्रतापव्यानिश्चा पुरतमयितु मन्ये धरणी धर कन्ये हृदयतः पयः पारावार परिवसति धारस्मतमिव दयावत्यादत्वम् द्रविदशिशु आह्वाद्य कवयः कवीहा कौदानामजनि कबलीरः कवयतु हरक्रोधज्ज्वालामलिभिः कबलीजेन वपुषः गभीरे तेनाभीसरति कृतसङ्को वनसि जनकां जायेते तव जननि रोमा बलिरितम् यदे तत्कालिङ्गी तनुतरतरङ्गाकृति शिवे कृषे मध्ये किञ्चिज्जननि समयद्वादि सुभिया योन्यम् कुशकरकयोः अङ्करगतं तनुभूतं व्योम प्रविश दिवदाभ्युङ्कुह देवी शिरो गङ्गावत्तः कुसुम च रते जाहुत भुज रते लीरागारम् किमपि तव नाभिर्गिरितु ते जिगद्वारं सिद्धेये गिरिश गयनानां विजयते नितद्गक्षी गणसदघरेण ी चिरज शरशैः श्रुज्यत इव चिरं ते मद्यस्य त्रुटितसतिरतरुणा समावस्था तेनो भवतु कुशलम् चैरतनये कुतौ तद्यः विद्य भिगुरौ। कटं सौ दोभूरे कनटकनटाभौ कलयता तव प्रातुं भङ्गात् अलमिति वलब्ध्वं तरुभुव विहारन्तं देवी त्रिवलि लवजीवल्लिभिरिव रम् श्रिगरपतिः पार्वतीया आचिद्य त्वयि करणरूपेण निदेन अतस्ते विस्तीर्णो गुरुरयमचेताम् वसुवतीतं सगयति लघुत्वम् यति चिदाणाम् शून् कदच कदली काण्डपटले उभाभ्याम् ऊरुभ्याम् उभयमभित्य भवति सुवृत्ताभ्याम् पत्युः प्रणति कठिनाभ्याम् गिरितु ते ेजानुद्या विगुडकरिकुम्भद्वयमसि पराजेतुम् रुद्रम् द्विगुणशरगर्भौ गिरिसुते निषङ्गौ जङ्केते विषमविशिखो बाढवकृत यदग्रे दृश्यन्ते दशशरफलाः पादयुगली न गच्छद्मानः सुरबपुटशा नैकनिषिता श्रुतीनां गानो दधति तमयं शेखरतया ममाप्येदौ मानः शिरसि दलया देहितनौ ययोः पशुपति जटाजूटिनी ययोः दाक्षालक्ष्मीः अरुण करिचूडामणि रुचिः नमो वा तम् ब्रूमो नयन रमणीयाय पदयोः प्रवास्मै द्वन्द्वाय स्फुटरुचिरकालश्च कवदे पतूयति अत्यन्तम् यदपि नृजते पसूनामीशानः प्रमदभङ्के नितरवे मृषा कृत्वा गोत्र खलन अथ वैलक्ष्यमितम् ललादे भतारम् शरणकमले ताटयति ते शिरादं दक्षल्यं झकृतं मूलितवता तुलाकोटिक्वाणैः किलिकिलितम् ईशानरिपुणा शिवानीहन्तव्यम् शिवगिरिनिवासैकचतुराय ईशाय भागे च विषदौ स्वरम् लक्ष्मी पात्रम् श्रियमचितृजन्तौ समयिराजम् त्वत्पादौ जननी जयदश्चित्रमिगतिम् पदम् ते कीर्तिनाम् प्रपदमपदम् देवि विपदा कथम् एतम् तद्भिः कठिनकमटी कर्परतुला कथम् बाबा बुद्ध्या उपयमनकाले पुरभिदा यदा दायन्यत्तम् दृशति दयमालेन मनसा स्त्रीणा तरचमलसङ्कोचिभिः सर्णां किं व्याम् कथत विगरे चण्डि शरणौ हराजिपतेभ्यः हिरजकराग्रेण ददता दरिद्रेभ्यो भद्राम् श्रियं परिसवत्नाय ददतु ददाने दीनेभ्यः श्रियमनिशमाशानुषदृशी आनन्दम् सौन्दर्यप्रकरमतरङ्गम् विकिरति तवास्मिन् मन्दावद सुभजे चातु चरणे किमज्जन्म जीवः करणचरणः चरणता सीड़ा परिचय इवा मन सल खेल भवन कल हम अतस्ते शाम शिक्षा सुभदमणि आचक्षानम् गच्छदा आचक्षाणम् चरणकमलम् चुचरिते गतात्रेण द्रुकिनगरि रुद्रेश्वर घृतक घटित त्वदीया प्रतिफल राजा अरुणचया शरीर शृङ्गारो रथैव ऋतां दोग् कुतुकम् परादाु प्रकृति सरलामन्दकसिते शिरीशाभाचित्ते दृषदुकलशोभा उचते दृशं तद्वी मध्ये पृथुरुरसिरोहविषये जगत्रादुं शम्भा जयति करुणा चिदरुणालङ्कत्पूरी रजनिकरबिम्बम् जलमयम् कलाभिकर्पूरैः मरकचकरण्डम् निविदितम् अत त्वद्भोगेन प्रतिदिनमिदम् रिक्तकुहदम् दीर्घूयो भूय निपीडयति नूनो तपत् ते पुरातातेः अन्तः पुरमसि तदत्वचरणयोः तपद्या मर्यादा तदलचरणानाम् अतुलभा तथा चेते नीताः शतमखमुखा सिद्धिमतुरा तव द्वारोपाभिः अणिवार्याभिः कमर कदत्तं वैधात्रम् भजन्तेन कवयः श्रियो देव्याः को न भवति पतितैरपि धनैः महा देवम् हित्वा तव सति सती रामचन मे कुचाभ्यावातङ्गः कुरवच तरोरपि असुलभः गिरामाहुदेवीम् द्रुहिण गृहिणीम् हरे पत्नीम् दद्मा हरसखरीम् अद्रितनया सुरीया कापि त्वम् दुरधिगमयित्री मम हिमा महामाया विश्वम् भ्रमयति पर ब्रह्म महिषी तदा मातः कथय कलित आलक्तकरकम् धेय विद्या तव चरण निर्देशन जलम प्रकृतिया का मोगा कारणतया कदा धत्वाणी मुखकमता लक्ष्णा विधिकजि सपत्नो विसरसे प्रदेहे पादिव्रत्यम् शिथिलयति रङ्गेण वपुषा चिरम् जीवन्येव क्षतितपशुपाचव्यतिकरः परानन्दाभिज्ञम् रसयति रसं त्वद्भजनवान् प्रदीपज्वालाभि राजन धि सुधा तू चंद्रोफल जलन वैरकना स्वीय परिवरीदिजित करवाव जनरी वाता सुखिज